याजोमयी नैषि निगापाङ्गविरोहि मगमगे मदस्मिन श्री वासल्यामृगी मधुरं सङ्कीर्तनाला मधुलिङ्गाश्वरी ॐ अमृतेश्वरकेश्वरी ॐ अमृतेश्वकेश्वरी ॐ अमृतेश्वरेश्वरी गणपतिं कुवामस्वराजं प्रमणा श्रीमहागणपतये नमः प्रणो देवी सरस्वती नाम विद्यवतु So let us start from the very beginning, O oh, Magna Vishnu until the end of 9th Anu Vaga, which is Magnisthame uh, Garmasthame till Khena Kalpiyada, okay? So let's do that together. One, two, okay? Everybody ready? We'll go a little slower. One, two, three. ग्ना विष्णुदजोषष्टी मा वर्तन्तु ेर्वाजे विरागतं मे प्रथमष्टमे प्रयतिष्ट मे प्रचदिष्ट मे वीदिष्ट मे प्रतिष्ट मे शुभश्च मे श्लोकश्च मे रावश्च मे उपष्ट मे ज्योतिष्ठ usha i'm sorry i'm late vakyamai vakyamai manasya mei chakrushya kito trishya mei dakshya mei लञ्चम ओजश्च मे सहश्चम आयुश्च आत्माचमे जरा च मत्मा च मे मनुश्च मे ै महाधिपत्य मन्युष्टमे वामश्चमे अष्टमे महिमाचने महिमाचने रमाचमो वष्टानुचने अटमिन सत्यं च मे सृजिशमे सत्यं च daranchani vachit samaye siddhanta me tacha नमोऽस्तुते ज्ञानि तनिच्यनि शान्तनं प्रभू सञ्चमे संचनन्तु कृत्सं चनि तं चमिरे कृते चनन् संमे सूतम चने बालिक्ये तमे तुम चमि पदं समरन्तं तर्ति चमि कृतेमपि तेंपिन्दिचनी इच्छानि मदिच्छम तुमने चने yam dancame mayasya me te me iti yant samudha satyam krishnam asto aramaime yam vatsra satpe tereyaseyate yatsa satke kishnam yato kishnam astam dravine yam kelata me sarja charame lakshyam me yam ी च मे क्षं रंशमे सुखञ्च मे कैलं च मे तु च मे सैनञ्च मे पुरकमेर् भूति आचमे आजयन पयेश्यन सत्यस्य चैव रितं चैव मधुचमे तायसक्नि केनन्दि शक्तिम चैव ऋषि चैमेनि दृष्टिजेमि ब्रह्मत्रयम चमा धिक्केम समनी चैव <laughs> ी सत्यं ज्ञानं अनन्तं ब्रह्म। तमसो मा ज्योतिर्गमय। मृत्योर्मा अमृतं गमय। ो आमे अशंम्यं तमेव विगाटमेत् स्यययत् यत्मे तमेव पार्श्वतः च नश्यमेत् तमेव उपायं परदैस्येत् तमेव हि रंगिणं तमेव हि तमेव चभि संचनीयं तदैम याम्यं तनोय दौ अपिष्टम आभाषते तिरुधश्चम और्णयत् तमेव हि तमेव च ye mani kaashchyam jamee raashchyam e पशवकारण्याश्च यज्ञेन कल्पन्ता वित्तञ्च मे वित्तिश्च मे भूदञ्च मे भूदिश्च मे वसु च मे वदतिश्च मे कर्म च मे हेमश्चिश्च मे कृतिश्च मे अग्नेश्च महाइन्द्रस्य समनुष्टो मत्तसमिन्द्रस्य दृष्टं पङ्गादिकं च माहि तपस्यामि सर्वी वृहि समानिन्द्रन्ते लोशान्क्षा इन्द्रमम इन्द्रस्य गृहं वदिस्यमहि दृष्टवेमि दशक्षम तपस्यामि महीन्द्रमेन्द्रीन्द्रश्च मरु महिन्द्रश्च नमो महा इंद्रस्य तस्मिन् तस्मिन् इंद्रस्य नमो नमः इंद्रस्य नमो नमः अंगुष्ठशोत्तमं विश्वमेदां नमो नमः दमा मे मैत्री मेष्टमे यत्किञ्च ग्राहाः आयमत्त्रः मद्रा अग्निः जन्म तृतीया जनष्टमे It's much to me It's much to me It's much to me It's much to me ूजकृन्द्रमित प्राप् ये जमे तिमे तिमे उष्ट्रे जंबुरी रमुलयो तिस्मे वृत्सि कप्पन संचम्य नामजमे तोमस्यमे यजुश्चमे ल् गो ओके गो हेड् अग्निश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे तिश्च मे तितिश्च मे चौस्तमे चक्र्वरीरङ्गल्यो तितश्च मे यज्ञेन साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्चतुश्च मे व्रतं च मे होरात्रयोर्वृष्टया When you go a little bit slower it's easier okay, because you already know the words right you have you can read very easily so yeah if it's slower will be ease out everything it's like uh, you know it'd be uh, better for you to pronounce the words as well as that pace so. okay two instances go next i can go okay hast nishme karmasme arkasme suryasme pranasme श्वमेधश्च मे पृथ्वी च मे तिशिश्च दितिश्च मे दितिश्च मे दौश्च मे शक्वरीरङ्गुलियोदिषश्च मे विज्ञेन कल्पन्तामृगश्च मे सोमश्च मे सोमश्च बृहत्रर्थं दलेचमे यज्ञेन कल्पतेतां गुड uh, uh, कपलो प्लेस इज यू रेड इट नो ना सत्वरी रङ्गुलयो okay? के सत्वरी रङ्गुलयो सत्वरी रङ्गुलयो तिस्रसेन यज्ञेन कल्पन्तं वृत्स्यमे सामचमे उपरो सोमचमे के okay? ल् oh, टाप् uh, okay. अग्निश्च मे घर्मश्च मेघश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतञ्च मे होरात्रयोृष्ट्या बृहद्रतन्तरे च मे यज्ञेन कल्पेताम् केन् okay, ऐ ट्रै हरि sure. सारिन् लिटिल् लेट् okay, sure. no अग्निश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मेष्व मे दश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच मे साम मे यजुश्च मे दीक्षा मे तपश्च मरुतश्च मे ्रतञ्च मे हो रात्रयो तपश्च मे ऋतुश्च मे ऋतश्च मे ओकेरिष दीक्षा च मे तपश्च मे इष तपश्च ऋतुश्च मेक्स्ट् ऐ केन् गो नेक्स्ट् अग्निस्थ मे घर्मस्य मे अर्कस्य मे सूर्यस्य मे प्राण मे स्वमेधश्च मे प्रदि च मे दिधिश्च मे दिधिश्च होयात्रयोर् दृष्ट्या बृहत् बृहत् इस् होरात्रयोर् देङ्ग् इस् इस् कल्पन्ताम् अरिक्चमे, so when you say Kalpandaam रिक्चमे, so Kalpandaam रिक्चमे, or you have to say Kalpandaam रिक्चमे, if you want to, to split up and say it for learning purposes it's okay, it's Kalpandaam okay. रिक्चमे, so Rigvedham is for us, so it's Kalpandaam रिक्चमे or Kalpandaam रिक्चमे, okay? Okay, okay. And then it is Saamachamे, Stoamachamे, okay? Can so you say okay. the last, the युरक्षा च मे तपश्च व्रतं च मे होरात्र व्रतं च मे होरात्र्या व्रतं च व्रतं च मे हो रात्र करेक्ट् न्तरे चमेन्तरे दीक्षा च मे दीक्षा च मे तपश्च मे हृदुश्च मे वृदं च मे आहोरात्रयोर्दृष्ट्या बृहत् रदं तरे च मे यत्नेन कल्पेताम् It is Vrishtya, okay? That uh, is correct. You can speak it if you want like Radam Chame, Aho Rathryo. It's okay. Okay. The, the thing is, Tapascham Rutuschame. Okay? It's not Tapaschame. Tapaschame. Because if you want to be actually a Swara, then the Me okay. will become a Ma. Okay? Okay. So somewhere it's Ma, somewhere it's Me, depending on what comes after that. Oh. Okay. Which comes followed by a, a Swara, like A, A, E, U, U, R, L, etc. or I, it will be Ma. Otherwise it will be Ma. अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मेष्वमेधश्च मे पृथ्वी दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन Only thing is, I don't know whether a couple of people also said the same thing. Aho ratrayo or vrishtya, not drishtya. So people are saying drishtya, oh. it's not dr. It's vrishtya. Oh, it's vr. Okay. Oh, okay, okay. It's, it's safe. Okay, the print to me. Vrishtya, va vrishtya. Oh. Okay. Oh. Okay, got it. Okay. Oh, because the text on Dignanam says Vrishtya. Yeah, yeah, yeah, yeah, that's yeah. right. I was wondering why people are saying, okay. Yeah. Okay, Vrishtya, Va Vrishtya. Okay. Okay. Got it, got it. Okay. Good. Now I know why people have made mistakes. Okay. Okay, who wants to go next? I didn't practice, but I can try and go wrong. Do it, do it, master, don't worry. Go ahead. अग्निश्च मे घर्मश्च मे ऋकश्च सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गलयो दिशश्च मे यज्ञेन कल्पन्ताम् यजुश्च मे दीक्षा च मे तपश्च मे ऋतुश्च मे व्रतं च मे होरात्रयोक्टिङ्ग् yeah Good. anybody else you are done i can try hari i am also okay. on the same boat as baskar <laughs> <Okay. laughs> agnistame garmashchame arkashchame suryashchame pranashchame ashvame swamedashchame pruthvichame ditischame ditischame द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम् हृक्ष मे साम मे यजुश्च मे दीक्षा तपश्च तपश्चमऋतुश्च मे व्रतञ्च मे हो होरात्रयो ओर्वृष्ट्या बृहद्रतन्तरे च मे यज्ञेन कल्पेताम् very good very good thank you okay i think you have done right nobody else everybody has gone correct anybody i left up okay so let's start uh, the 10th uh, one garba aaschame garba aaschame गर्भाश्च मे वत्साश्च मे गर्भा गर्भाश्च मे वत्साश्च मे प्रविश्च मे गरे गर्भाविष्टमे गर्भाश्च मे वत्साश्च मे त्रविश्च मे रविच मे गर्भामे श्च मे त्रीच मे प्रवीच मे प्रविष्ट मे प्रवीच मे दित्यवाच मे रविचमे नमितमे नमितमे नित्यवाच्यमेचमे रविचमे द्वितीयवाच्यमे द्वितीयोहीचमे त्रवित्रविस्मितमे रविद्वितीयोहीचपचमे द्वितीयोहीचमे द्वितीयोहीचमे द्वितीयोहीचमे इति द्विष्ये दित्यौ हि च मे पञ्चाभिष्टमेत्य वाच मे दौत्यौ हिष्टमेश्व पञ्चाविष्टमे दित्या दित्या ी च मे पञ्चाविष्टमे पञ्चावीच्वाट्यौ हि मे पञ्चाचिष्टमे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे पञ्चविष्ट पञ्चबी च मे त्रिवत्सश्च मे त्रिवत्सा च मे पञ्चावीचमे पञ्चा वी च मे त्रिवत्सश्च मे त्रिवत्सा च मे एवत्सश्च मे त्रिवत्सा च मे तुर्यवाच मे तुर्यौ हि च मे त्रिवत्सा च मे पष्टवाच मेष्टमे पष्टवाच मे तुौ हीचमे पष्टवाच मे ष्टौ हि चम उक्षा च मे तुर्यौ हि च मेहीर्यौ हि च मेही च ष्टौ हि चम उक्षाच मे वशाचम वृषभश्चमे गर्भाश्च मे वत्साश्च मे प्रविश्च मे ीचमे दित्यवाच्च मे दित्यौ हि चमे पञ्चाविश्चमे पञ्चावीचमे त्रिवत्सश्च मे त्रिवत्साचमे तुर्यवाच मे तुर्यौ ही चमे पष्टवाच्चमे आश्चमेप्रविश मे प्रवीच मे दिव्यवाचनमे पञ्चाविच मे पञ्चमे चमे सूर्यौ च मे अष्ट वाच मे अष्टौ चमस्ताशामे गर्वात्ताश्च मे प्रविश्च मे त्रवीच मे विद्यवाच मे विद्योबीच मे पञ्चभावमे पञ्चाबीच मे त्रिवत्सश्च मे त्रिवत्साच मे तुर्यवाच मे मे गर्बाश्चमे वसाश्च मे त्रविश्च मे त्रवीचमे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्चमे पञ्चावीच मे त्रिवत्सश्च श्चमे त्रविश्च मे त्रवीचने दित्यवाच मे ीश्च मे पञ्चीजमेश्च मे त्रिवस्तश्च मे त्रिवस्ताज मे तुर्यवाच मे तुर्यौ हि च मे पष्टवाश्च मे पष्टौ हि च मे उक्षाय मे वशाच मषभश्च मे Okay, good. You broke up one place, but you can say Me in that case, okay? If you say Pashtauhi Chame, and then Uksha Chame, you started, which is okay. Okay. But if you say it together, you have to say Pashtauhi Chame, Uksha Chame. Pashtauhi Chame, Uksha Chame, okay? Pashtauhi Chame, Uksha Chame. Okay. Pashtauhi Chame, Pashtauhi Chame, Uksha Chame. Okay, Jadha. Okay. श्चमे वत्साष्टमे त्रविष्टमे त्रवीचमे दित्यवाच मे दिव्यौ हि च मे पञ्चाविष्टमे पञ्चावीच मे त्रिवत्सष्टमे पर्ष्टावी चमा उक्षाच्चमे वशाच्चमे वशाच्चमरिषबस्चमे वाष्टावी चमा उक्षाच्चमे Who wants to try next? Let on. me try. Okay. Go ahead. Go ahead. गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवीच मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावीचमे त्रिवत्सश्च मे त्रिवत्साच मे तुर्यवाच्य मे तुर्यौही मे very good Who wants to go next I can गर्बाश्च मे वत्सा वत्साश्च गर्बा आश्चमे वत्साश्च मे त्रविश्च मे त्रवीच मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावीच मे त्रिवत्सश्च मे त्रिवत्साच मे उक्षाचमे, मे तुर्यौ हि चमे पष्ठवाच मे पष्टौ हि चम उक्षा च मे वशाचश्चमे Okay, गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रवीच मे त्रविश्च मे त्रव। त्रविश्च मे त्रवीच मे दित्यवाच मे दित्यौहीच मे पञ्चाविश्च मे पञ्चावीच मे तुर्यवाच मे तुर्यौ हि च मे पष्टा पष्टाष्टवाच मे पष्टौ हि च मे पष्टौ हि चम उक्षा च मे पशाचम ऋषभाश्च गर्भाश्च मे वत्साश्च मे त्रिविश्चमे त्रिवीच्यमे दित्यवाच्च चमे पञ्चाविश्चमे पञ्चावीचमे त्रिवत्सश्च मे त्रिवत्सा चमे चमे पष्ठवाच्चमे पस्थोही चम उक्षा चमे वसा चमरुषभस चमे विए बड़ी दन और अबड़ी ऐस? I'm sorry Hariya, I had to, uh, I had a disturbance in between, I couldn't go through, but I'll listen to the rest of it, okay? I'm sorry. Okay. You do want to try or no? No, I didn't, you know, I had a, some phone call came and it was cut okay. off in between. Okay. That's okay. okay, I'll, uh, yeah. No problem, okay. VE HACCHA ME VE HACCHA ME VE HACCHA ME VE HACCHA ME VE HACCHA ME NADVANCHA ME ुश्चयुर्यज्ञेन कल्पताम् आयुर्यज्ञेन कल्पतताम् देहच्च मे लग् मे धेनुश्च म आयुर्यज्ञेन कल्पगाम् प्राणो यज्ञेन कल्पगाम् ुश्चयुर्यज्ञेन कल्पताम् प्राणोयज्ञेन कल्पताम् युर्यज्ञेन कल्पदां प्राणो यज्ञेन कल्पदामपानो यज्ञेन कल्पदाम् आयुरायुर्ययुर्येन कल्पनां कल्पदाम् प्राणो यज्ञेन कल्पदा मपानो यज्ञेन कल्पदाम् व्यानो यज्ञेन कल्पदाम् कम्पतां याणो यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतां बाणो यज्ञेन कल्पतां याणो येन कल्पकल्पताम् कल्पतां चक्षुर्यज्ञेन कल्पताोत्रं यज्ञेन कल्पतां यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां यज्ञेन कल्पताम् ्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्जुयज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागश्लोत्रं यज्ञेनकल्पतां चक्षुर्यज्ञेन कल्पतागश्लोत्रं यज्ञेनकल्पतां चक्षुर्यज्ञेन कल्पतागश्लोत्रं यज्ञेनकल्पतां चक्षुर्यज्ञेन कल्पतागश्लोत्रं यज्ञेनकल्पतां ोत्रं कल्पताक श्रोत्रम् यज्ञ कल्पतागश्रोत्रं यज्ञेन कल्पतां कल्पतां चक्षुर्यज्ञेन कल्पताक श्रोत्रं यज्ञेन कल्पताम् चक्षुर्यज्ञोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वा यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पदाम् आत्मा यज्ञेन कल्पताम् यज्ञेन कल्पताम् वा कल्पताम्पताम् मनो यज्ञेन कल्पदाम् वाग्यज्ञेन कल्पदामात्मा यज्ञेन कल्पदाम् यज्ञो यज्ञेन कल्पदाम् मनो यज्ञेन कल्पताम् यज्ञेन कल्पताम् आत्मा येन कल्पताम् यज्ञो यज्ञेन कल्पतामताम् धेनुश्च म आयुर्यज्ञेन कल्पदां प्राणो यज्ञेन कल्पदामपानो यज्ञेन कल्पदां ज्ञानो यज्ञेन कल्पदां चक्षुर्यज्ञेन कल्पदाोत्रं यज्ञेन कल्पदाम् मनो यज्ञेन कल्पदाम् वा यत्नेन आत्मा यज्ञेन कल्पदाम् यज्ञो यज्ञेन कल्पदाम् धेनुश्च मे हयो कल्पतां बाणो यज्ञेन कल्पतां गता कल्पतां गतां यज्ञेन कल्पता श्रोत्रं प्रज्ञेन कल्पना कल्पतां कृपा आह ओय ये निकल न एकम पदम ओ नमः येन संकल्पं वन्नत् जगनो देहश्च मे नग्वाञ्च मे धेनुश्च आयुर्वज्ञेन कल्पताम् हुड्स्रि ओके तु वेहच्च मे नड्वाञ्च मे धेनुश्चम आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् याहो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पतागम् सायि मनो यज्ञेन कल्पताम् वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् आयुधेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पता ज्ञानो यज्ञेन कल्पता कल्पता युक्तोत्र यज्ञेन कल्पता मनो यज्ञेन कल्पता वाग्यज्ञेन कल्पता आत्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पताम् वेहच्च मे नड्वाञ्च मे प्राणो यज्ञेन कल्पताम्पाणो यज्ञेन कल्पताम् व्याणो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागश्रोत्रम् वाग्ज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतांड् ऐ केन् गो नेक्स् ुश्च मे आयुर्यज्ञेन कल्पदां प्राणो यज्ञेन कल्पदाम् अपानो यज्ञेन कल्पदां ज्ञानो यज्ञेन कल्पदां चक्षुर्यज्ञेन कल्पदाद् प्रोदम कल्पतां मनो यत् कल्पतां वाग् यज्ञेन कल्पताम् आत्मा यत्नेन कल्पतां यत्नो यज्ञेन कल्पतांड् ओके चक्षुर्येन स्वेहश्च मे नद्वांस मे धेनश्च म आयुर्यज्ञेन कल्पदां प्राणो यज्ञेन कल्पदामभानु यज्ञेन कल्पदां यानो यज्ञेन कल्पदां चक्षुर् यज्ञेन कल्पदा गुण् यज्ञेन कल्पदां मनो यज्ञेन कल्पदां वाक् यज्ञेन कल्पदामात्मा यज्ञेन कल्पदां देहश्च मेन च मे धेनुश्च मयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् कल्पता श्रोताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतां वेरि गुड् मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम पानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् Okay, so I think everybody is done, so we will practice this next week and I think we have only one more which is 11th one, okay. So that is a little easier than everything else. So let's do 3 loka asanasaha and let's stop for today. लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवतु लोकाः समस्ताः स्थिनो भवन्ति